श्रीहरये नमः अथ सप्तमोऽध्यायः श्रीशुक उवाच तेनागराजमा नागराजमामन्त्र्यपलभागेन वासु किं परिवीय गिरौ तस्मिन् नेत्रमब्धिमुदान्विताः आरेभिरेषु संयत्ता अमृतार्थं कुरु ध्वः हरिः पुरस्तात् जगृहे पूर्वं देवास्तथो भवन् तन्नैश्चन्दैत्यपतयो महापुरुषचेष्टितं न गृह्णीमो भयं पुच्छम् अहेरङ्गम् अमङ्गलं स्वाध्यायश्रुतसम्पन्ना प्रख्याता जन्मकर्मभिः इति कृतस्थानविभागस्त एवं कश्यपनन्दनाः मम तु परमायत्ता अमृतार्थं पयोनिधम् मध्यमानेर्नवेशोऽद्रि अनाधारो ह्यपोविशत् त्रियमाणोऽपि बलिबेर्गौरवात्पाण्डुनन्दनं तेषु ष्टे दैवेन अतिबलीयसा विलोक्य विघ्नेशविधिं तधेश्वरो दुरन्तवीर्यो वितधा विसन्धिहे कृत्वा वपुक्काच्छपम् अद्भुतं महत् प्रविश्यतोऽयं गिरिमुज्झहार तमुत्थितं वीक्षकुलाचलं पुनः समुत्थिता निर्मतितुं सुरासुराः सुरासुरैरेन्द्रैर्भुजवीर्यवेपितं परिभ्रमन्तं गिरिमङ्गपृष्ठतः बिभ्रत्तता वर्तनम् आदिकच्छपोमेङ्गघण्टूय नमप्रमेयः तथा सुरानाविसदासुरेण रूपेण तेषां बलवीर्यमीरयन् उद्दीपयन् देवगणाश्च विष्णो दैवेन नागेन्द्रमभोधरूपः उपर्यगेन्द्रं गिरिरादिवान्य आक्रम्य हस्तेन सहस्रबाहुः तस्थौ दिवि ब्रह्म भवेन्द्रमुख्यै अभिष्टुवद्भिः सुमनोभिवृष्टः उपर्यदश्चात्मनि गोत्रनेत्रयो परेण ते प्राविसता समेदिताः मम दुरब्धिं तरसा मधोत्कटमहाद्रिणा शोभिधनक्रचक्रम् अघीन्द्रसाहस्रकठोरदृङ्मुखत्वासाग्निधूमाहतवर्चसोऽसुराः पौलोमकालेय बलीवलाधयो दवाग्निदग्धा सरला इवा भवन् देवांश्च तच्छ शिखाखतभ्रान् धूम्राम्बरशकर कञ्चुकाननान् तमभ्यवर्षन् समुद्रोर्मि उपघूटवायवः मध्यमानात् तथा सिन्धोर्देवासुरवरुतपैः यदा सुता न जायेत निर्ममन्दाजित स्वयं दन्तसूकं गृहीत्वा मत्नन्मत्ना प्रतिगिरिरिवा शोभदातो धृदात्रिः निर्मत्यमाना तुधेरभूत्विषं मघोल्बणं कालहलाह्वग्रतः सम्भ्रान्तमीनोन्मकराखि कच्छपात् तदुग्रवेगं दिशि दिष्पुपर्यधो विसर्पत् उत्सर्पत्तः असह्यमप्रते भीता प्रजादुतृवुरङ्गसेभ्रा शरणं सदा विलोक्य देववरं त्रिलोक्या भवाय देव्या देव्याभिमतं मुनीनाम् आशीनमद्रौ अपवर्गहेतो तपोझूषणां स्तुदिभिः प्रणेमुहो प्रजापतय ऊचू देवदेवमहादेव भूतात्मन्भूतभावनां भुता त्राघिनः शरणाभन्तां त्रैलोक्यदहनात्विषाद् त्वमेकसर्वजगतः ईश्वरो भन्तमोक्षयोः तं त्वामर्चन्ति कुशला प्रपन्नार्तिहरं गुरं गुणमय्या स्वकस्तास्य सर्गस्थित्यप्ययान् दस्ते यथा स्वदृग्भूमन् ब्रह्मविष्णुशिवाभिधां त्वं परमं गुह्यं सदसत्भाव सदसद्भावभावनः नानाशक्तिभिः आभातस्त्वमात्मा जगदीश्वरः तं शब्दयोनेर्जगधातिरात्मा प्राणेन्द्रियद्रव्यगुणस्वभावः कालक्रतुसत्यमृदं च धर्मस्त्वय्यक्षरं यत्र यत्र वृथान्मनन्ति अग्निर्मुखं ते किल देवदात्मा क्षितिं विदुर्लोकभभाङ्कृ पङ्कजं कालं गतिं ते किल देवदात्मनो दिशश्च कर्णौ रसनं जलेशं नाभिर्नभस्ते श्वसनं नभस्वान् ना सूर्यश्च चक्षुंषि जलं स्मरेतः परावरात्माश्रय परापरात्माश्रयणं तवात्मा सोमो मनोर्ध्यौ भगवान् शिरस्ते कुशिः समुद्रा गिरयोऽस्ति सङ्गारोमाणि सर्वौषधिगीरुधस्ते छन्दांसि साक्षात् तव सप्तधाधवस्त्रयीमयात्मन्हृदयं सर्वधर्मः मुखानि पञ्चोपनिषदस्तशेष मुकानि पञ्चोपनिषदस्तवे सत्यैस्त्रिंशत् अष्ट अष्टोत्तरमन्त्रवर्गः यत्तच्चिवाक्यं परमार्थतत्त्वं देवस्वयं ज्योतिरवस्थितिस्ते चायात्वधर्मोर्छायात्वधर्मोर्मिषुयैर्विसर्गो नेत्रत्रयं सत्त्वरजस्तां रजस्तमांसि सांख्यात्मनश्शास्त्रकृतस्तवेषोऽ सन्धोमयो देव ऋषिः पुराणः ज्योतिःपरं यत्प्ररजस्तमश्च सत्त्वं न यत् ब्रह्मनिरस्तभेतं कामाध्वरत्रिपुरकालगराद्ये कामाध्वरत्रिपुरकालगराद्यनेकभूतः कामा कामाध्वरत्रिपुकालकराद्यनेकभूतृकक्षपयतस्तुतयेन का का का तत्ते यस्त्वन्तकालयितमात्मकृतं स्वत स्वनेत्र यत्त्व यस्त्वन्तकालयितमात्मकृतं स्वनेत्र भग्निस्फुलिङ्गशिकाय भसितं न वेद एवात्मरामगुरुभिर्हृतिचिन्तिदाे द्वन्द्वं शरन्तम् उमया तपसाभिधप्तं कथन्तमुग्रपरुषं निरतं स्म निरतं स निरतं स्म साने तेनून तेनून मूर्तिम् अविधन्स्तव अभिधन्स्तव खादलज्जा परतः परस्य नाञ्झस्वरूपम रा नाञ्झस्वरूपगमने प्रभवन्ति भूम्नः ब्रह्मादयः तत्सर्गसर्गविषयो संस्तवने ब्रह्मादयः किमुत प्रपश्यमा प्रपश्यामो न परं मृडनाय हि लोकस्य व्यक्तस्ते व्यक्तकर्मणः श्रीशुक उवाच तद्वीक्षव्यसनं दासां कृपया सर्वभूतसुहृद सुहृदेव इदवाकसतीं प्रियां शिव उवाच अहोभद भवान् एतत् शिरोदमतनोद्भूतात् कालकूटात् उपस्थितम् आसां प्राणपरीप्सुनां विधेयम् हि मे एतावान् हि प्रभोरर्थो यद्धीनपरिपालनं प्राणैस्वै प्राणिनः पान्ति साधवक्षणभङ्गुरैः बद्धभैरेषु भूतेषु मोहितेषु आत्ममायया पुंसकृपयतो पत... बद्रे सर्वात्मा प्रीयते हरि प्रीते हौरभगवति प्रियेऽहं प्रियेऽहं शराचरः तस्मादितं करं भुञ्जे प्रजानां स्वस्तिरस्तु मे श्रीशुक उवाचा एवं मामन्त्रय भगवान् भवानीं विश्वभावनः तद्विषं जग्दुमारेभे प्रभावज्ञानन्वमोदत ततः करलीकृत्य व्यापिकालाकलं विषम् अभक्षयन्महादेव कृपया भूतभानः तस्यामि दर्शयामासस्वीर्यं जलकल्मषः यच्चकारगले नीलं तच्च साधोर्विभूषणं तप्यन्ते लोकतापेन साधवः परमाराधनं दत्ते पुरुषस्य अखिलात्मनः निसंयकर्मदच्छम्बोर्देवदेवस्य मीडुषः प्रजादाक्षायणि ब्रह्मा वैकुण्ठस्य समं स संसिरे प्रस्कन्नं बिबदक्पाणेर्यत्किञ्जि जगृहु स्म तद् वृश्चिका हि विशौषद्यो परे इति श्रीमद्भागवते महापुराणे अष्टमस्कन्ते अमृतमतने सप्तमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथ महराजकी जय